तन्ते वनगतम् दृष्ट्वा अकस्मान् मन्युर्न वर्धते श्यामम् बृहन्तम् तरुणम् चर्मिणामुत्तमम् रणे न कुलन्ते वने दृष्ट्वा कस्मान् मन्युर्न वर्धते दर्शनीयम् च शूरम् च माद्रीपुत्रम् युधिष्ठिर सहदेवं वने दृष्ट्वा कस्मात् क्षमसि पार्थिव नकुलं कुलम् दृष्ट्वाते देवम् च दृष्ट्वा ते दुःखितावुभौ अदुःखार्हौ वर्धते द्रुपदस्य कुले जाताम् स्नुषाम् पाण्डोर्महात्मनः धृष्टद्युम्नस्य भगिनी वीरपत्नीमनुव्रताम् माम् वैवनगताम् दृष्ट्वा कस्मात् क्षमसि पार्थिव नूनम् तव वै नास्ति सत्तम यत्ते भ्रातॄंश्च माम् चैव दृष्ट्वा न व्यथते मनः न निर्मन्युक्षत्रियोऽस्ति लोके निर्वचनम् स्मृतम् तदद्यत्वयि पश्यामि क्षत्रिये विपरीतवत् यो न दर्शयते तेज क्षत्रियः काल आगते सर्वभूतानि तम् पार्थ सदा परिभवन्त्युत तत्त्वयानक्षमाकार्या शत्रून्प्रति कथञ्चन तेजसैव हिते शक्या निहन्तुन्नात्र संशयः तथैव यक्षमाकाले क्षत्रियो नोपशाम्यति अप्रियः सर्वभूतानाम् सोमुद्रेह इति श्रीमहाभारते वनपर्वणि अर्जुनाभिगमनपर्वणि द्रौपदी परितापवाक्ये सप्तविंशोऽध्यायः